मद्भागवत् महापुराणं चतुर्थे स्कन्ध अथैकादशोऽध्यायः मैत्री उवाच निशम्यगदतामेव ऋषीणां धनुषे ध्रुवः सन्धते स्रमुपस्पृश्य यन्नारायणनिर्मितम् सन्धीयमान एतस्मिन् मायागुह्यकनिर्मिताः क्षिप्रं विने सुर्विदुरक्लेशाज्ञानोदये यथा तस्यास्त्रं धर्मसी प्रयुञ्जतः सुवर्णपुङ्खा कलहंसवासस विनेशिता आविशुद्धीर्षद्वलं यथा बलं भीमरवाशिखण्डिनः दयसिंहधारैः प्रधने श्रिरेखैन्द्रितस्ततः पुण्यजना उपद्रुताः समभ्यधावन् कुपिता उदायुधा सुपर्णमुन्न फणायिवाहयः स तान् प्रसन् कैरभिधावतो मृधे नृगत्तबाहूरुं शिरोधरोदरान् निनाय लोकं परमर्कमण्डलं व्रजन्ति निर्भेद्ययमुर्ध्वरेतसा तान् हन्यमानान् भूरिशः औतानपादिम् कृपया पितामहो अर्जुन अगाधोपङ्गतमहर्षिवी मृरुवाच अलम्बातिरोषेण तमुद्वारेण पापना येन पुण्यजनाने तान् वधे त्वमन्नागमहत नाम्नास्मकुलोचितम् तात कर्मैतन्द्विगर्हितम् वदो यदुपदेवानाम् आरब्धस्ते कृतेनसाम् नन्वेकस्यापराधेन प्रसङ्गाद् भवो हता धातुर्वधाभितप्तेन त्वयाङ्गभ्रातिवश्य नायं मार्गो शिसाधूनां शिशिकेशानुवर्तिनाम् यदात्मानम् परागृह्य पशुवद्भूतवैशम् सर्वभूतात्मभावेन भूतावासं हरिं भवान् आराध्यापतुराराध्यं विष्णो तत्परमम् पदम् स त्वं हरेरनुध्यातन्तम् तत्पुंसामपि सम्मतः कथं तु वद्यम् कृतवानानुशिक्षिन् शिक्षिन् सतामृतम् तिक्षया करुणया मैत्रा चाखिलजन्तु समद्वेन चतुर्वात्मा भगवान् सम्प्रसीदति स प्रसन्ने भगवति पुरुषः प्राकृतेर्गुणैर्विमु जीवनिर्मुक्तो ब्रह्मनिर्माणमिच्छति भूतैः पञ्चभिराराब्धयेसिन् पुरुष एव हि तयोऽव्यवाया सम्भूतिर्योसीन् पुरुषयोर्ह एवं प्रवर्तते सर्गस्थितिसंयम एव च गुणव्यतीकराद्राजन्माय या परमात्मनः निमित्तमात्तं तत्रासीन्यर्गुणपुरुषर्षभ व्यक्ता व्यक्तमिदं विश्वं यत्र भ्रमति लोहवत स खल्विदं भगवान् कालशक्त्या गुणप्रवाहेन विभक्तवीर्यः करोत्य कर्तैव निहन्त्य हन्ता थोऽनन्तोऽन्तकरं कालो नादीरां दिकीं कृदद्य जनं जनेन जनियान् मारयन्मृत्युनान्तकं न वै सपक्षोश विपक्षयैव वा परस्य मृत्योर्विशतः समं प्रजाः तं धावमानमनुधावञ्च निशा यथा रजांस निलम्भूतसङ्गा आयुषोपचयं जन्तो तथैवोपचयं विभो उभाभ्यां रहित स्वस्थो दुस्तश्च विदधात्यधौ केचिद्कर्मा वदन्तेनं स्वभावम् अपरे नृप एके कालं परे दैवं पुंसकामृतापरे अव्यक्तस्याप्रमेयस्य नानाशक्तियोजयस्य च न वै चिकीर्षसंता को वेदासु सम्भवम् न चैते पुत्रकं ध्रातुर्हन्तारोधनदानुगाः विसर्गादानि योस्तात् पुंसो देवं हि कारणम् सा एव विश्वं सृजति स एवावति हन्ति च तथापीजनहङ्कारान्नाम् गुणकर्मभिः एष भूतानि भूतात्मा भूते सो भूतभावनः स्वशक्त्या माययायुक्तः सृजत्यत्ये च पाति च तमेव मृत्योममृतं दातदैवं सर्वात्मनोपेहि जगद्परायणं यस्मै बलं विश्वशुयो हरन्ति गावूयथा वै न सिधामि यन्ति ताम्